े देवायज्ञाया पुनदतये वानिय एवं विद्वानियज्ञायपुलीशे भवत्रेव परिप्वयित्वा सप्रपादयति मनुष्यलोकयेलम् भवयित्वा भूतम् देवलोकं प्रणयच्च देक्षितगे गया भुच्चेत्यापस्तुदेन शतप्रोज होक्षितत्वायस्तु च पञ्चमीं पञ्चाः यज्ञ मेवाबलं धारको चै शयि जयज्ञो चारि पुरुष यज्ञ महिष्णं ते जयति मेधा ये मनसे जय स्वाहे त्याह नेतगाधिमनसा पुरुषा यज्ञमधिगच्छति तरपत्ये गोष्ठे स्वाहेत्या हवाद्वैतरस्पते पृथिवे गोषाभाजैव पृथिव्या यज्ञं प्रयुं दातो देवेन बृहतेन विश्वसम्भित्याहयामेव्याहपो देवेन बृहते विश्वसम् भोगते तजभ्रूयाद् पोदान्ता इमं लोकमागच्छा हास्माय वैना लोकाय समयतिलस्माच्छां सा इमं लोकमागच्छन् यज्ञा वा पृथ्वीत्या हत्या वा पृथिव्यो हेज्ञ कुर्वन्तरिक्षमित्याहान्तरिक्षरेज्ञो बृहस्पजन्मा हविषा ्रह्म मे देवानाञ्च भक्ष्पति ब्रह्म दैवात्मनि यज्ञमवरुन्धेयुरि यज्ञस्थानुमश्चित्यास्थानुभेव परिवृणत्य प्रजापदयज्ञमदृज पृष्ठपराणे तत्रो ग्रहणस्योः ग्रहणत्वमुदा ेजश्चरित्या हुक्तमानोलेज्यश्चाध्यै द्वादसमात्सबन्धाञ्जुलयच्छीत्या हुक्तत्माना स्वादसभयत्समन्ध विषयं जामार्यलक्षग् नक्षयत्राशैलभाषे सर्वजागे क्षैलिष्वेवस्य नेतृत्या येन गृहे चक्ष्य नित्याहृतै दैनविष्मभ्यपेत्याह वैश्व देव्येन भ्युम्नं गृहेण पुष्यप्रगित्याः पौष्ठ्ये दैनदावागेतत्सर्वदेवत्याय देवगच्छाधेक्षैलि सर्वाभिदेवैनं देवता भग्रेक्षैलिभक्ताक्षरं प्रथमं पदमस्ताक्षरानित्रेणीलालित्रेणस्तावयन् त्वारितान् यो जाक्षदासेन गायत्री रेकादलाक्षराजेण तृष्टव्यद्वादलाक्षराजेण जगदेधावारेभर्वादितं रागुं जगदेव यक्षादेक्षयति सर्वे देवी पञ्चन्द्रेक्षयति सप्ताक्षरं पथमं पदगं सप्तपदाचकरे वसवत् चकरे वसोमेदावरुं जगेवादक्षदाप्तम् प्रथमम् परन्त स्वाद्यद्वाचो नाम् मनुष्यामुपजीवन्ति को नयाजुहरिपो नैहरे प्रजापय प्रजापदोनया जुहृज्यो राज्यप्रजापय प्रजापजनप्रजाधाकम् प्रत्यये मे देवेभ्यवयिज्ञायाचमाने कृष्णालोकम् कृत्वा वक्रम्यान्ते मन्यन्त्रयम् वाहिमे उपावत्क्रत इदम् भविष्यति मे उपामन्त्रयन्दते अपवनात्रयान् महिमानमपनिधाय देवानुपावत्केता मेधवानु यत् शुक्रं जत्सायिनश्चैतलाम् नो यत्कृष्णमिच्छामयाश्चिल्पेष्ठ भवन्त्रं कृष्णार्जिन्याय कृष्ण देवेन कन्दलेवावरुन्दय कृष्णार्जनेन देक्षय विब्रह्मणो मालय तद्ग्रोप्यकृष्णार्जिनं ब्रह्मदेवेन देक्षय धीमान् देशं देशमाणस्तेत्यायताय लवे तद्गर्प्रदायेष जैन पुरासो ने चवाङ् रक्षवान् मुदय राजैव्यं तवोर्जं च भजम् तदतो रमये मे कलापभक्तो मध्यः सन्न मज्झलय स्थावोर्जं तदा निवस्थां मज्झलभोर्जाभुञ्जनभोर्ध्वं मे पुरुषप्रलाभ्यै मे जनवादे न मे जं यन् मज्जलसंलक्षि मे जङ्गेया मे जं ज्यावक्त्र गयेन्द्रावृत्ताय वज्रं प्रभयक्षत्रे धाभ्यवलक्षत्रि यगो नत्री मेघलाश्यश्च भ्रातुम्भ्रातुर्यं मध्यदो भित्रमत्रये प्राणस्तृतमेव भवत्येमेनत्राय लक्तिनामभ्यध्यायत्तागुणमभवत्तलिन्द्रो चायत्तो मन्यतयोगायितो अहनिष्यदे स इदं भविष्यति पाम्परायिषत्तस्या इन्द्रयवाजाय रतो मन्यतयोगे महितोमधनिष्यदे स इदं भविष्यति तस्या नमस्तयो चिलक्ता भोतमजापत्तच्छायै जन्मतागुणभक्तेन्द्रवेष्टेतां प्रेरुभवात्तावषाणाभ योज भामा एवं श्रीकृष्णविधान प्रयच्छ विभयो निरेव यज्ञञ्चलो तिभयो निम् दक्षिधागुंसयो निमिन्द्रगुंसयो नित्यादित्या हलस्माजस्तवत्या ओषुजयः पच्चन्द्रिफले ध्व्या हलस्मादोः फलं गृह्णन्धस्य न गन्धो येन वामनं भावुका प्रजां भावुका कृच्छ विषादया कन्दोयते विकृष्टस्मयज गोगीशालगुला दक्षिणा ध्योने स कृष्णविषयाम वचने चलगुना दक्षिणा ध्रोने स कृष्णविषा नाम वचने जयः प्रजालानाम् पदापादुरास्त्रा सुदक्षिणाधुरात्त्वा न कृष्णविधानाम् स्थास्य त्रयो ैवेज्ञायातिष्ठमानापामनस्त्रादिषत्रैभावादशो यागोषयाम् प्रेक्षति वाचमेवावलम्भाम्बरफलक्तिरोद्बादुम्बरवोर्जमेगावरुन्धमुखेन संविता फलतिमुखदयैराोर्चन्दशास्ता ोर् गुञ्जले वर्णाधिकण्डं प्रयच्छलि मयिष्वरणाभिवस्ता धृत्यैपातं विभजलिता मृत्युजौ मानैश्वादयं जिस्वाहा यज्ञं वनप्रयात्याहमनसामभिहत्या वा ऋषर्जि यज्ञस्वान्त्याहान्तरिक्षै यज्ञस्ताः यज्ञं वा तादानभयित्याहायं वा यज्ञस्तमेव भाक्षाला देवालं यच्छति यज्ञस्तदृशायेन यायं प्राहां भयरितृ पायुष्प्राहदेवे भैर्वैणं प्राहत्रैरुभयभैर्वेण प्राह भाजं विसृजे यत् पुरा नक्षत्रे स्वभाजम् विसृजय यज्ञम् विच्छातु नक्षत्रेव भ्रदं कृषवे विवादं मिथुल यज्ञं यज्ञमेवाभिवादं मिथुले विभृजयज्ञ नैव यज्ञम् सन्तना विदेव यज्ञाह यज्ञमेव नम्बवेदपाला त्या भ्रह्मकालिनः वदन्ति हो रौज्यन् देक्षिले याचिरमानस्यावतायजो या जङ्गजोयाज्ञपरतन्तरिया देवामनोजातामनाय चैत्याहत्राना देवामनोजातामनायस्यैवच्छागं देभागुं चे रक्षमहाघ्ने सुयुं सुव मेवाधिपा कृप्तास्त्वमवहत्या भिपवा जय जगवाधियोमज्ञैलं प्रथमाधेश्चाहार्ये दैवानां प्रथमदिष्टगैलैलं प्रथमानं भैरिदेवाक्षेश्वेत्याह देवाख्ये ऋत्व यज्ञैश्चे ज्ञेत्या हैतमोभि यज्ञाक्षेलतै मे हेयक्षिदास्तु सुपुषैन्द्रियं देवतास्तामञ्च विश्वमावृत्तं यच्छाहेन्द्रियनैनैनं देवताभिस्सन्नय जयदेशजनभ्रूयाध्यावनयेव वसोनभिरेक्ष रतावन्तोदाश्रयत्वमा भूया भयाः वगन्धे गन्धन पि मापोकाव्यत्यायता जय वदमेव नागन्धादिभागदेयत्र जयदेवमेतानानुषधा जैव दक्षिणागमयताध्यवृष्टै जयदेवमेतानुषमिहता जय वदमेव दक्षिणागमय जगदेवताध्यावृष्टदेव लीलाभा त्याहयत्स्वामेऽध्यञ्जुंसदे हन्तम् प्रचल्यानुवेशमित्याहसयतु मेह कृत्वाध्यमसायति सो न प्राजाहन्त न्यमुता प्रजानामहे विवे निश्चागु समध्येयं सत्त्व प्रजानामे विधाग्रहेश्वरं प्रणेव प्रायणागेव यज्ञामनुदयनासंस्मादादित्य प्रायणीय यज्ञानामादित्यमुदयनीयः पञ्चदेवदायज्ञा पञ्चाक्षरान्त यज्ञो यज्ञ ेवत्यागत सत्यमयजन्पाजे मेमदयाति सम्प्राजानन्नना दक्षिणा सोमेन प्रदेशे गं समित्रोजे जेवत्याग सत्यञ्जयित्राजे मेमदयाति सम्प्रजानाधिमत्याग सत्यमित्वाज्ञे भ्रमो यजेवाय सद्ये भोमोदाभ्यामेवानुवचत्यज्ञे गोमा विक्त्वा सितालं यज ृङ्गमेव प्रदेशाविश्वाना ऋतेव रमन्वा वा ऋतेव रमन् वा विदान्तुलव्य ब्रह्मभाविना वदं च प्रयाजवदमनो याजं नो याजा यज्ञप्रसन्तनकार्यमात्माने प्रयाजा प्रजानो याजा यत्र याजानन्तरि यादात्मानमन्तरि याजनो याजानन्तरि यात् प्रजामन्तरि या रखलुपे यज्ञस्य विरदर्शनक्रियदेशदल यज्ञपदा भवति यज्ञं पराभवन्तञ्जमानवरा भवति प्रयाजव देवानो कार्यं प्रयाजव च वद पुदयने गन्धात्मानमन्धनय दिनप्रजान्तः पलाभवधिमानप्रायणे यस्य निश्चासमुदयनीयमभिनन्दवृदैवस्य मन्त्रिया प्रायणे यस्य गाज्यायता उदयने यस्य गाज्या कुर्यात्मदागमं प्रमाय तस्याज्ञाप्रायणे यस्य पुरोनुभाज्या सा उदयने यस्य गाद्या चक्या प्रदे स्थगरे कर्द्रोस्तवेषु पर्णेषात्मलोकयोस्पद्यतागुंसा कर्द्रोस्तु पर्णेव जगत्थाब्रवे स्त्रीयश्चामितो जिलिमस्तमाः चात्मानन्द्ये नेष्वीजम् वे कर्द्रोरभोपर्णे सन्दागुंसितौ कर्णेशाद्रवे दत्ते वे पितरो पुत्राणि वितो जिलिमस्तमाः हैत्मानन्दस्के नेष्वतिमा कर्द्रोरः क्षाक्षदा सुखेभेश्व अक्षरे अमीरे भागं सामसुश्चेत्रमातस्मात्मसुमन्तं चेष्वनमलिष्टरुत्रयोदशाक्षला सुखेशाट्त्रेष् अक्षरे अमीय सा पुंसा दक्षिणा वृत्ततमसा चारे भाषि नै शमने दक्षिणामीयन्तर्यतायकृतमदक्षुलक्षराधत्यदयाज्यो तमस्याजाभ्यरुं धतदजायांसा मन्ताहरक्षत्वारिषाक्षरा निष्ठाक्षाम्रह्मपादिनां वदन्ति त्याख्यायत्रे कलिष्टाचन्द्रं सति यज्ञमुखं परियागे यमागत्वा ममाहक्तस्मात्यज्ञस्मिने समापध्यान् द्वे सवने समगृह्णान्मुखेन मुखेन समगृह्हा तदयक्तस्मात् द्वे सवने शुक्रवदेष्ट्रादत्तवनञ्च माभ्यञ्जनञ्च तस्मात् वनशेषमभिज वाञ्चभेनम व्यङ्गलं तासि रववने यतसुक्त्राया स्वासंभरते वेनत्तकं सोवमानं कृगमानं गन्धर्वो विस्वारसपर्यमुष्टा परित्रोऽस्ते परिजलोवक्तप्पा परित्रोऽस्ते श्रीदुत्तमं वसले कल्पदेरा अमृतं श्रीकामावेगं सर्वा स्त्रियाविक्रीकामेवायमेके कृत्वा कृताकम् सर्वेभ्यक्रम्यायच्छोभिस्तावक्तदे त्वया महाय हि ब्रह्मगं सर्वा अवदन्तं देवास्ता देवादपाद्य यं तज्ञत्रियः कामयम् जय कामुकारयज्ञया भवन्ते एवं वेदा भवत एवं नेष् भवति च बहुदया भवन्त्या क्रीणादिपाते लघुसन्मया क्रीणाधिकस्मादेकहाय नाम रक्षावाचं वदन्त कोरयाकं नया का नया स्वा नया भक्तसभया हितमानश्चा च कृष्णयास्तरणेश्चाप्रमाणि बोधितमानश्चाच्च द्विरोपया माश्रघेश्चास्मान्यञ्जलिया तम्भाजनीया लिङ्गाख्याक्रेणा चैलद्वे सोमस्तरूपम् निर्पे दैनम् देवतया क्रेणापि अभिरन्यमभक्तत्पादभ्यो हिरण्यम् पदञ्ज ब्रह्मवाजिना पदम् जिगत्पादनस्थिकेन प्रजा प्रवीयम् च खन्वतेन ध्यायन्तरन्यम् च ते पदामितत्पादनस्थिकेन प्रजा प्रबीयम् च खन्वतेन ध्यायन्त एतद्वाज्ञा प्रियम् धामगद्धवन्ते चिरन्य शुक्रतनो वर्तते गर्भाणा प्रजानाम् परामवदधाय गर्भां वध्राय प्रजानाम् प्रजल त्यायज्ञुमते तद्वाचावधराष्टवैत्यामेव यज्ञगौरक्षागं देवागं सन्त्ये कलु मान्थाय सुदारुहमज्ञे मज्ञाकरेण गायित्या हरे समारोह दिलाग्य त्वमन्त्रे नेतृमराधेत्या एतत्तस्मा प्रजाह यद्य मनसा जैमयदेतद्वाजापदति मनाशे च्याहयज्ञनसाभिगच्छ वितत्करोति दीयते चाह यद्यमनसाभ्याय वितद्वाजावद विदक्षिणाशेत्याह दक्षिणाय के दायिज्ञाशेत्याहयज्ञया दैवीणा क्षत्रिया हे चाह क्षत्रियाय दान्धे ैत्या हयदेवालिश्च प्राहि चैत्यानामालिक्ष उदयने यस्मादैवयल स्यादयता स्याच्च विबद्धानुचरणे चात्मवायिलवानस्यात्मज्ञेश्चात्मवान्येयां वा नोदिनीयां वित्रत्वारिबद्धा शिक्ष्या वित्रो ये शिवो देवानां तेनैवीनाम् प्रतिबद्ध्रा ोषात्मनपाक्षित्यादय कोषयणामेवास्यामकस्तमख्या इन्द्राजाध्यक्षाय हेन्द्रमेवास्याध्यक्षङ्गभा माता मन्यतामनुत्याहानमतगेवण्यभावे अपि देवमश्चेत्याह देवीत्येता देवस्त्वमीन्द्रा हि त्वमित्याहेन्द्राय हि त्वमहाय देव प्रोयामक्रेया रुद्रस्तावयस्मित्याहरुद्रो क्रोरो देवाहान्तमेव स्य केष्टैत्रस्य भटेत्याभ्रियण्या सत्यभाव पुनः आत्मन् वाचम् सत्यैनुपदाम् गृगास्य वा भवति एवम् वेदा हं वादत्य संवत्परस्याय नैकावत्येवन्धय सप्त नैव चले पशवश्चवरुन्धय सप्तग्रान्या पशवसप्तायन्या सप्तचन्द्रागत्यभयस्यावरुध्ये वस्त्रुरुद्राधेत्याहिमानन्द्यायस्य गृहस्परिवच्चित्र्याम्भव वैदेवानां पुरोधा ब्रह्मणां कैवतो रवरं ते रुष्टो सुरादिः त्याहानेलमोत्साय बहिलनगिरागण्येलवृष्पाहेत्याहुविन्दुभयान्ध <workitenàn> परिलिखिता <Sessly> ेश्चितयो देवानन्तरालिवाकृन्दति पशो वै समग्रेन्द्यै सम्पति पशोमेवावन्ध्येना सम्पत्यात्मानमेवाध्वर्युच्छालेन्द्रो देदालैपेश ेव्याहत्तनाञ्चनागौरो भगद् लोकमेव लोकाधिकारिभवत्याधीय देवष्टहवलीयोकवत्यम् लोके पशनाञ्चाच्यदाहवलीयमुष्णम् लोके पशनाञ्च्याभयोुभयो दैनेन लोकयोमसमन्तम् लोके बृम्भलाचिना परञ्च विज न विवेत्या ञाच्यं लिखावश्चाक्षमश स्वामविक्रहे सुरभेतरेतरमुभय नैव स्वामविक्रयेण स्वामिविक्रये क्रमशवत्पाहोपवेश स्वामिक्रेण एवाहन्त पशूना धर्मं पशुनैवापन्धे कामनेता पशुत्यादित्रम् वा अपसत्यशुनेव पशुमात्यमे कैलव्यैपशुनागं लोकगं लोकेनैवास्मै पशुनपन्धे पशुमानैव of this domino शुक्रस्य ग्रहयित्या शुक्रवाक्यश्च ग्रहो लाख्यया जमानमेवास्याख्यया च लाख्यया यस्मात् वाच्यं समयजीवन यत्र खलु यं योगेन्देवगौ सवितारहित्यभेदे चन्द्रामेवा निश्चायुं चन्द्रे देवत्मचन्द्र निमे दैवस्यैवैकमानानांकयोत्सर्गं निमेत जालदयान्द्रियायालयान् निमेतस्मायै अङ्गुलयस्तर्वाङ्गेभ्यङ्गुलभृष्टात् सर्वान् सञ्चलयप्रसर्वाभि अङ्गुलयोगाय एकजोक्त पञ्चमे दैतपाद्यभक्तायं च पञ्चगत्वा जयपञ्चानाक्षला वञ्चपान्ता यज्ञा यज्ञमे मावलं जय पञ्चगत्वस्तोष्ण्ये चाणार्थं विलानं विराभिला जैवान्नाद्यमवरं जयज्ञामि चोतमे मावलं जयशक्तों पदक्षैता मस्याध्यापम् सङ्गमे दैकवानस्यैवत्याम् नाविषदस्यायाम् ृत्तमभ्योक्षरे प्राणमेव मधुरदधानायत्रे मधुरदशादित प्राणाको अर्भ्यगुं सोम्यासको अर्भ्यङ्कमानमको अर्ध्वर्य महिमानना <laughs> गवाल द्यमवन् जव सप्त न्याहसभ्यं ददात्मदष्टा जगच्छन्ते शुक्रेण क्रीणा येत्याैवा वेगेन हिरण्येन स्वमहत्वेन तदभेशः पुम्यक्रय वैत्याः ज्योतिष एव यजमाने तथा योगा यणं यच्छ मित्रो नये कृमित्रभागित्या हतायिन्द्रस्त्व ेव महोदायभातान् मारभ्यो मन्धलक्षमन्दिरेन्दलक्षो त्यादध्यैर्यत्राणो सन्तं मे शङ्करोण्येवैनं देवतया स्वमध्ये दिवासदा मर्यायक्ष्य सर्वदेवख्यं देयवादत्सर्वाभिदेवैनं देवताभिस्तमध्ययत्र समरक्षसामपः केवले युग्यञ्चले शङ्कदानेहवने त्याहज्ञातुमित्याह जगुंसा मनद्रामित्यामञ्जसामेव निश्च हत्या पुत्रान् भोजसाहारित्या हरिदत्तश्चलित्या भोगायात्रा त्या हयदेवानस्वानक्रियमाणङ्गं धर्वा विश्रामपरियमक् तस्मादेवत्या हवानस्यैवस्य वरुदस्य लक्षित्याभक्तान् यज्ञः परिलक्षदेव पुराकसमावेदमे शाखात्मानमालभ्यजरौमीकम् आत्मनित्रेण यैवज्ञे सोमाः वर्तमज्ञे सौमेयम् असुमानवदेवाश्चयैव यज्ञम् नित्यं च भाव <laughs> मानवदेवत्येवा tad eva tad eva yad kendre tad samaraṃ viṣavyaṃ asya āgyālavaraṃ yekala dikkāni vittaṃ kecchā nāya priyā evaṃ devāṃ viṣavyaṃ asya vittamaṃ śeyyataṃ kecchā hṛṣṭu bhīre navāḥ kṛtaṃ vittamaṃ viṣavyaṃ kecchā jagatya ēri janavarāṃ catrakaṃ यज्ञायज्ञ मामरन्धय ब्रह्मपामि नाम रन्धयमा यत्रिया उभय आदित्यस्य क्रियमादत्त्वा ममायस्मायत्रिया उभयव आदित्यस्य क्रियदैव चिरवायन यज्ञत्रयदादित्यं न भगवान पुरोदास भव सुभगवान पुरोदासः भवति केन न्दधान्विधा प्राणोऽधिकोकच्च देशन्द प्रजापदेतानि पक्ष्माणि गतस्वबालाय कवेस्यैकदास्वबालप्रदाभक्ते कवेशिरस्यै प्रजापदय च कृतं फलविदेवालीयाहुवेदयो भक्तासुरावमादन्ते देवालियमपद्यं कर्मण्ये कर्मे मेन कुर्वेदा रक्षा गच्छानाय वरस्ताश्चादित्यैव ेव्याम्भपादिना वसन्त्यं पथित्वा समाना ्यायैवासन्नाय सर्वा देवता संयत्रा वृन्ते छाया पञ्चभाषमरुद्रेन्द्रमलवर्णाधिकेन्द्रहुष्पे देव यिना प्रिया सर्वभभक्तायामयिकाभ्यक्त प्रथम ्रा भवजिमो यज्ञमे हरिवदयेत्याह मनोवे हरिवचन्मन प्रेत्याहमोऽना समवाराज्यं दधामलायेत्याह शक्तिभिनेनात् सममानाज्यं दशग्त्याहोष्ठगं विन्तानां नित्याहयवा वज्रं कृत्वाध्यन्यवाेतश्चरं जयत्ता नो नेण प्रजलन्सं सत्यैदेव परमात्यादि हृदयवास्यानुवाय दैन्ये येतदेवात्यै देनात्या त्यायतामात्मविन्द्रायत्यायक्तेश्चा होभादेवैन्दतो मञ्चाच्यायश्चाध्याय भजेयन् संज्ञामेधेश्चाभक्तिलोगा सखायक्ता देवाप्याय प्रत्येव कामाया प्रवादेश्य वन्दे एव ैव महात्या जनय साराय क्या हत्या रामजय या न कन्दे देवास् राज कन्यातां तं देवा मिते ओर्जिं प्राणि सम्दपाराह रक्यत् तं देवदायिजे जिनेव गुरु संदत्ता पुराख्य वने किमिव चलबये रपिदि दयावां वरदेशा मुपे रुत्थान संज्ञाविभोत्छे भवत्का समानानाः सभाध्वन्याः क्षया प्रजामनान्तराम् मेखलागम् समायत्सले प्रजान्तरदमृता भवति मलन्ते धर्माज्यगदस्याग्रेतमागच्छया पुरादन्न यस्मै च ममासता सारयिता देवालय संनाद्रुवञ्चादेवालये पुरञ्जयन्ते कुर्वताग्निमने विष्णं चिष्टयेत्रैश्च पशो नाम शिव यथापशो नाम शिव दत्तारं मृद्रो वाय प्राणदयुलिं पुरस्ता जुयादिन्यानाम् पुरस्तात् च प्रज्ञाः क्षेप क्रम्यजहाय पराजय सातुभ्यान् प्रणुद च भज प्रणु जैवेक प्रातनुपतन उपासेन्द रासंख्या सायधात्रेतायं प्रातनुपटन उपलभ्यन्ते सायं पुनवाक्याः कुर्यालया य वित्रौ लोकै वित्र इमे लोकाशमानेव लोकान्तेना ऋषत्वं पत्यन्तो मेवत्रेणा विद्वारेण सोमग्ने समासां वत्सेवत्रेणाधिषुर्विमूषरिवर्त्यन्तर्विमोशरे मासाधमाता एव प्रेमाचाराग्रान्द्रयाज्यकाले लोकेऽस्वक्षादित्यै समग्रे भत्वाग्रान्तस्मे लोकेऽशं भवति मलोभरे ये महान्तर्देशे कामय कामश्च लोके स्वरक्षाधितेन भत्वावधेय मेदा मे मलोभरे यश्च मान्तरज्येक्षामस्मिन्नैवास्मि ओके जोम बाबा जी ौगङ्गम् दिगौ भसत उभयम् कृतेनयते पदमुन्नये दैव सोनागम् रोटकं रोटे दैव सो नवन्ध्येवे जनिनाय रक्षो र्यवर्यश्चक्रामत्ववेत्त्वमार्य वर्य वर्यचक्रमेत्यहं दुर्गेऽहं चैश्च सगत्वमित्यहं दुर्गादाहश्चेत् दुर्गैवे हं चावोचावराधोयम् वामगोषाञ्जले प्रस्तानः चुक्तं वेद्य मधुरा दुर्गेऽहङ्कारी निरर्थपुञ्जेनमुद्यक्ष्य तप्तये दुर्गा त्वा आहतामोचताहने यज्ञ एव ्यावदावश्चितावध्यैवान्तेवलो धियावधिना मृगे कृत्परि क्रामहितावन् वृध्य घृगेन्द्रे लोपं कृमान् सर्वदः परिचक्रामश्चिम वैभवेरक्ष्यामेन्ते विपुंशपदानि पश्चात् चिरस्य भवतिरत्रिपुंशत्रा विपुंश विपुरस्ताः चिरस्य भवन्ति परिहृतृणालिप् पुनराभमत्युत्तरम् वर्गिलमुत्तर परिहृष्टनादि प्रजाले वर्ग यजमानमुत्तर वर्ग निजमानमेवा यजमानादुत्तरङ्गयोगप्जमानो यजमानादुत्तरः यद्वादीत्या यद्वादशदाह्नस्य मदलस्य चित्राहीनस्य नित्यस्य निरमन्त्रियदाह्नस्य मदलशाहीनस्य नित्यक्षे यत्राया स्वय वत्सत्वे कत्तमभागे विशोसैक इत्युत्तम् गतमगयत्य सत्वा स चल एकत्वमप्रलङ्गेन जातान् धानुजान् ीयदैव भोयमु ज्रग्य वागो राज्यक्ष वदं क्रोधय वागो क्रोधैव राज्या वज्रस्य लोकं धनभ्यादेशस्य वाकयज्ञस्य लोकम् कृत्येवयोभ्याम् धनस्य जले यश्च दैव जय आत्मन् सोपय सारे वायश्चात्मानदेव त्रिपदाभेराभे त्रिवदातु प्रातमध्यं चे सायं तन्मदा मतमाभि यज्ञश्च लोकम् पुच्यै प्रागश्च सायं चापुरा मध्यम्भवलोकन्तरस्य मलाभवन् मध्यञ्जने मध्य आत्मवेन्तरस्य मध्यञ्जले मध्य आत्रयम् भवति मध्यतो वा अन्येन भुञ्जले मध्यज हेमदरोचन्धत्रय भ्रातु्या विभवो भवत्या भवति गद्भोवान् वेदयद्य कृतमिदय कृतमिता भक्तम् दरिकादुर्यम् न प्रवक्तव्यमात्मनो गोगीता प्रवदेशेन मनोत्थाय हम् न प्रवक्तव्यमात्मना वृत्ते दक्षिणदश्चेशमानस्यायुत लक्षदेवायुतैज्ञमभ्यावृत्यदये देवता एव कामले गुरोह गृहे भगिनेन कामलेतोपै नमस्तो नक्षं लोकं च ये गुरोः विहिदय श्च लेख्यमत्यभितवर्णम् लोचन्ते वैदनमहात्मात्येवतुर्जन्नैनम् वैदने वैदनेलाजरे न्न वैजनालिङ्गेरन्तां तदाकृत्या वैजनं मृजुमानेत्रं ने वैजनेराज्ये वैदनारञ्जलस्तु वर्गं लोकमायुं पराह वैर्यधानञ्च तराह व्यं चदारं बलापुरमेव प्रतिष्ठिले वैजनैनाश प्रदक्षितं जय सर्वदत्तमं तत्रैव प्रत्यादय पशुरामेव त्यालक्षन्निर्मित्ये वास्तैक्यं ग्रामय निज्यावृत्तयलय वैरन्यायालय जाव्यावृत्ता मयम् पात्रय वावृत्रय वामे वागुन्द्राजे न महामीयाः गत्या भवत्यादय तन्ने मयि मनसि वा महाध्यानात् येन अवक्तदेवे नम्पात्रेण लङ्के रीवा गुंन्दे कार्येदैव वद्यनेन जये भोभिणाम् राजो वैगुणत्वा भमत्सेवा यानन्दया पक्ष्म्या देवान्यसामुपामन्त्रयन्तयामान्यो राहुलक्ष्णीत्तरवेदिं युक्तमेव युक्तवन्ध्यरित्यादि मेधेत्या नानावत् इत्यादि मेधेत्या नानावधवनान् मानसितमित्यानाधिकारवधवनान् भाव्यमित्याह्यधिकार यानन्द्रम्याप्रभक्तो यज्ञागेत्या हरितमानमेव मधुरप्रवेश्रुमाधे जनकुम्भं चे ेवेऽभ्यश्वे तव साक्षलप्रजगनिरुद्धायन्द्रभव पुनश्चित्यानुवर्ति होजरामः रामत्रमुद्यक्ष देवानध्यायन्द्रिन्द्रोदे पुनः प्रादपादवनोदवान् पश्चाद्यश्वर aravattareim vākale vidyāram adirāṇāḥ brāhmaṇāya saṁdhiṁ dolitēm sārvikā jottāya sattāṁ lakṣa ruparetyā dayatrākareṇa ucciccha rakṣa navattare vidīṇaya deva lakṣa koṁ tatkara samayaṁ laṣṭā pañcāya śudīṇam karī ेस्तवान् प्रजातावान् यश्च वचे कृते देवाः कामयन्तासुभान् धातुयानयुभे मे कृते स्वाहे धातुयानक्षभवन्ते सुधान् धातुयान विभव मयन्त वशो निन्दे महे रुचेज भगवत्रि गुं हेरतिहायत्वमनिष्ठहे ऋषो निन्दं दे वसूनिहित्वा कामयन्तप्रतिष्ठान् विन्दे महेशे जगवत्रि मुभेरस्याधित्यम निश्चा हे जि इमां प्रतिष्ठामविन्दं तद इमां प्रतिष्ठां नित्वा कामयन्त देवादिसौखेयामे विषये भगवत्य महदेवान् देवयते युगमानाय स्वाहे जगत्पाक्षरा वन्द्यपां चन्द्यक्षयाघाले गुरुप्पा दक्षा भगवान् योजमुद्रन्नाधिकेव देवाभूता न प्रेणादिपौरुभ्रवान् मिलाय त्याभ्यायागुंतेन्दं समग्रुवण्डपसहाय स्याहेतस्यामेव <Sess> सा नराले दक्खो नब्बो वच्चिल बाम समोद नन पुलको लगेतां संधारान सम्भक्त्य मेव नक्तम हट्टक्ज्ञान गृहे जमहि चाक्य केर परिर्यस्यं भाला अभरंगवा होदेय गवेन सर्वधा परिजयितौद चला परिहेहि वंदाम सदिवर्ण पाषा देहि जय मुनिते प्रणेन जीवज जय जय अख्यो टैत, बीत महान् थेड़िंड लो ilु करते wir vastly फिरन तेर, बीत महान् थो जोईण यज्ञे तद्गान्धेन इहोनस्तकर अभिवक्तं सुवाक्के वदलयकृ गुणौले चाधनावे तुषां केवत्स्वाक्तिर प्रेयर्वक्तमित्रं मित्रपार्यन्देयपत्री यज्ञस्य गनोदि फलांतरभागत्याना एवै यत्चाम् ब्राह्मण रक्ष देवमहावान् ऋते चोमक्षारूदेखां मूसंजीवयत् नवेन चामृघाम् वक्मनाग्होते ेव्याहमेव <Sessly> एतद्यज्ञानं जिवो वाविष्टुतवापसंज्ञामित्याचेत्सयक्षादक्षिणस्य वृद्धानस्य मेघेन्द्रिगन्ति चेत् सदयेन यज्ञस्य यानो वा नकारण आश्रमस्य तृतीयश्च क्रियते तृतीयस्य वृद्धानस्यावलुद्धे शिरो एतज्जयध्वान namaskara ramadevata prakshavadechya adhvane taras <laughs> kaajara mrshya namaskara devata dharmadechya bhavet avum niravaya layam pranam gam pinna jayatana brahma yadeya dravya pramee rapaatlisrochha भ्रमादो बाहुभ्यामित्या हाशिनोऽभिलवानामध्वयोताम्भ्यामिचायस्य मध्यैव लभ्य लभ्यभिरेत्या लिखितलिखितारादयित्वारक्षराब्दो वायन् शैवस्य श्रीत्यै श्रेयो गर्वान्तरायम् देवास्तुन्दरत्या हरि प्राक्श्रेय व्रतत्वार्वाहे प्राक्श्रेयप्पा परत्त्वार्वाहे मत्रोर् जोव देवं दिक्प्रो यपाहैतत्कदो दिक्त्त्वात् यपोवनय दिशान् तेवमजे रमण यपत्रोत् कृहमूर्कुलं परोर् देवः जगं समवर्द्धकदिगत्मानं नवं विचौदुं काले भवदिनामानं अगत्मानं दत्तावजी देवास् किं त्याखादयक्तेर्येदास्यै त्याः पिताः परे मारुतोत्रम् भवनीं साक्षमनिमित्या कृतेन ज्ञावा पृथिके भागुणे भाविच्यौतुम् वैयाञ्जभाविद्यावापृथिवी एव रते यान्तमेवैतमाहन्तैन्द्रमचेरधरा क्षैन्द्रगोरि एव विश्वजनस्य विश्वजनख्यत्यच्यो नवशैलकामस्य विनिगा कृत्वा भवत्यैका एकादशाक्षरा तृतीयगेन्द्रिय तृतीयगिन्द्रिया पञ्चदश्राजुर्यवद पञ्चदराध्यादुर्यादि भवत्यै सप्तदश प्रजागामक्षरप्तदशप्रजापय प्रजापदयराज्या एकविवंशयत्वं सोमाय प्रदक्षादम्बेश्व प्रजामोर्जन्द दक्षिणानि सदेव विजध्यालोकमुत्तराणि दक्षिणानित्तराणि गर विजमानमेवायमानादुत्तरं कराजपाक्षिमानोजमानादुत्तराङ्गभक्ताङ्करा जगावत्येतस्मादङ्गं प्रजा उपदेवं विपरित्वा यागिरैत्याह यथा हैन्द्र ेवलयात्राम् प्रथमम् ग्रन्थम् व्ययाद्यप्रमेयस्मार्थयितः प्राणा उपरवा वृद्धाने कायन्ते तस्मानः चेदन्तः कायन्तेहनोत्तवाे चाहवेष्टवा विषयवरवा अधुरान्तर्वाणाः प्राणेषु न यन्त इदमहान्तं वरगवत्सवान् निजं नो मालमो यस्यैवतमानो यश्चायमानोतौ व्यकरप्तोऽस्माप्राणां भिन्ना प्राणाय हेरवलेभ्यो प्राणापरवा प्राणे कैवं दधातिपणाद्य तथा यज्ञस्य लोके सन्त्रेषु प्राणामुपरवाहनो यं जाने विराजयज्ञोहं केश pana parava gavana vattarichirodha nirava appayaa vembe bharede na त्वा लाब्धश्च जानुभवदयाज्ञात्पाय यज्ञस्व जयं देवानै यज्ञं पराजयम्पादयम् जैजस्मे यज्ञश्चापराज वङ्गराज्ञेन व्यङ्गराज्ञेन भ्राब्ध्यश्च यानेव यज्ञश्चापराजदन्तेन पुनस्तदेवराजित्येव विश्वं सप्त तुचि चल्वाने तुच्चि एग्ने तिकलव इत्तुनाजी परोजाज आगूँ आगं पुड़ इज्य नेग्ड़ इज्य मेरा भुड़ इस्य मुड़ संदाना यंचेंगा वेदवने गलिपकेला का विस्तुरी यंव। उरक्त्सागा तुम्भास््य रइन धि जुड� ैवाब्रवन्दे श्रेणामरे चक्र योगादृष्टिस्मा ब्राह्मणोक्ते येषामगीतं धात्मङ्गामरीयाज्ञानीयस्तस्माच्च व्युत्पत्तिहाय वृत्पदृष्टे तेषामगीशेन जन्तदेवालय प्रादेवाहुदे पुरश्चादुराः वङ्कागस्ताभिप्रापदन्तया प्रदेशेर्य पश्चादुधाः वङ्कागस्ता विरपादन् तत्राले नन्याहृदयो भोजन्ते सत्यन्नादे प्रौदित्यश्चाष्टैव पुरस्तानुज्ञानीतत्पा ीयन्ते प्रदेशे गदायन्त प्राणागद्वर्य प्रत्यङ्गे प्राणोद्धर्य प्रत्यङ्गध्याय प्रमालिपस्यान्नाध्वर्य mah me jova athaya rabha rabhaare rudda प्रयच्छेत् पदा वदन्ति नैवम्बायामम्बालिज्ञास्युत्तरेनाज्ञोदिदाक्षिणाय प्राणान् सङ्कलित दिव्यङ्गे दृत्य उच्यन्ते लतान्ते दिशान् लोकधिगदन दिकदिकता यवान् एतानि भवताय भूयन्द्रेजस्वेन सद्गणा विद्वाभ्याञ्चापतिश्चन्दयत्रौकं च वयजेवान् भयतु वर्षं लोके यतो रक्षागत्य जिकारो वन्ते लोके नज्ञा रक्षागत्य महत्याप्तमात्मानम् कृत्वा सुवर्षं लोकमानम् भवत्यः <Sess> त्या होरुणकृते ेन कृत्वास्तदात्याहृपायवेदमानो वादे वैचा देवो प्रयच्छ देवदाक् भक्सम प्रयच्छ केतत् कौसाम देवो देवाण उपागा इच्छा देवमर्छेदन देवाण उपेदेद अहम् रक्षो रक्षालिक्षाव नक्षो ओत्केलं मनक्षं वेगेनेदस्य लन्नाप्रोया अपजना अपदम एदवानत्तः तथा प्रलया रायः सूर्यनित्यः परिमदस्य एवं शाकभवत्देन नोरेवेन मिथ्यानात्तारो विवेवान् गस्पधा कृतभयक्षः पदादानो हि तनां विदमहन् नरुणस्य पाधादिचाहवनां पादान् एव स्वच्छते निज्ञे अपदोषात् ततः पूर्वतः भोक्तजनृद्रा नवे भवमत्कराय मरिन्द्रेनाय एवम् नितान्धाराज्ञे सौपवादेम् मरिन्द्रसेनालिक्षके वैष्णव्यश्चै द्वैश्व भक्कैवेनं देवदगार्थे ज्ञानगान्धान्यानुगादित्या राज्यं ज्ञाने करुणाख्येन परेन्देव्यानाद्यावेश्येन त्यावजो प्रथमेण सकलेन पदापद्रमश्चे नमाले लैत्रं मध्ये नमा हिगं जेरित्या हैवे ङ्गं वृष्टैकलङ्गं वृष्टै प्रदक्षितस्यादित्या भगवन्तस्यै वृत्य रेशवेन नस्पतीनामप्रदक्षिता प्रदक्षित एव भवत्यादित्य वन्यन्तस्मै दुष्कामाग्रं नृत्य रेघवेन नस्पतीनामधव्यभवजेन कामये बहुवन्द्रे बहुधाभं नृत्य रेघवेव नस्पतीनां प्रधव्य प्रसमानैव प्रदक्षितं वृत्यै प्रदीक्षाकामश्चैकमेव नष्ट ृष्टुवृन्दत्वेन वृष्टैकै न ज्ञानपञ्चाक्षा वन्द्युक्तान्तं शाकामस्य भवत्यैकादश कृपय भवति पञ्चदश्याप्दश्या ध्यादव्याय भवत्यै सप्तदशार्यम् गजागामस्य लप्तदशाय प्रजापेदाय एकविंशत्यैकद्यागामत्यैकविंशति ovala prakshat pripitya sa sanvalaketa kalaaya tri tenarga yatri ga yatri ekam gam karu tri dagha gachchana ekam kalavam vidha ृगे प्रान्तरिकायत्रालोक्राक्षरिपदाक्षरिपदाय लोकप्रोदपि भगवानेकस्तैरव नैत्यो योजमानेन चन्द्रिवजनानुरवस्त्रिवत्या kyaaram jan nigar lagiyat vaare hi ho ches gane ya uchcha nigadachya sarhi ho ches gane ya uchcha chya me veinam niladhyopata karma vaala atichibadaya me veinam niladhyopata अहं हि दा उद्घान कृत्वा एव एवैनं विक्षोभं कृतौ हि दैवीनाः प्रयंन्तं हि तस्मात् चेतसः फलङ्गं नन्दनं तथा हि वा महा आज्ञा दिव्यं बावेना दृष्टा तत्त्वं हि ताकरणं दृष्टा मत्तः मा खेदमानं भवेत दैदा रक्षान्तमः रक्षान्तं एव हि मानं चेतसागतिरवद परम सत्यं परमार्थं मे वा चंते जो सार्थ सत्यं लब्जत तथा यतां लोकानां देवदयागो दत्तमया चैनं देवताधिरेन्द्रिय नव्यध्वयाञ्चि माहवलीनादित्थं वाचिरामयाज देवयं देवताधीरेन्द्रिया अध्यध्ययङ्कामया यजु श्रीमन् देवताभिन्द्रियेण समध्वय निमित्तर यजु श्रीमैनन्देवताभिन्द्रियेण समध्वय वित्रम् भवनिन् स्वक्षमनिमित्या भक्तं ृष्टिभैवर्यक्षिगरिकामृगस्यादित्योद्वतोनां <laughs> भक्तो याजालाजिन्द्रेदानुगुन्धामले जगुंसमादेवक्तो यज्योपायद्योगं विनोचितमादेवदेवतास्तुभर्गं धानुमायन्ते मन्यन्तमनश्च भविष्यन्ति विलयरूपेण लोपदित्राभर्गं शोकमायन्तमशयोपे दैवाभक्ता जानन्तद्योपस्य यो हर्योगं विनोचितवार्गस्य लाकस्य चक्रज्ञा पुरस्ता पुरस्तायुहितस्य मन्ये दत्तायज्ञस्यातिरिक्तमासेवा एकज्ञस्य यथज्ञाभ्यम् अभित्रा तिरिक्तमेतद्योपत्ययदौ च कालाक्षाञ्चद्वादधयन्ता ेवस्थिदेवो वे प्रकृतो हरम्परो पङ्खेन मन्यन्तैश्चिदेवो वेतस्फलगोहर किञ्चन विषत्यम् अधुक्त्वान प्रसु यत्मानभ्याम् रुद्रा वेदमानवभ्या समाजगत्या <laughs> हरिरे न्थ ज्ञायैवान्नाय भगवा देवदानयक्षमादत्यैवत्यावृषौ चेताश्चत्यादित्याकृत्यभित्यावृषमज्ञश्चेध्वा देवे अर्जुङ्कायत्सन् चन्द्रवः प्रजायश्चैत्याचन्द्राभिदेव मन्त्र नुद्रोहेत्याहतायत्रेण लवङ्गाहृतैनं क्रियमालाजानुद्रोहेत्याहकाञ्जकाञ्जेवेणत्रेयस्तवायत्रयेन चन्द्रदातमध्यज्ञाभव शज्ञमभित्वार्जितौरं भवन्तौ हिमानमभि ैराज्यम् प्रेरण न्दैरेव्येवानुभयन्ति मन्त्रेत्या हस्ति गो वै मन्दे उजिरस्तप्मादेवमाभिरपदे धानेत्याः ब्रह्मदैरेव ब्रह्म दैवास्मैपदो नवन्द्रव्यादयन्धामित्या ङ्गेन <laughs> यत्यादय राभयश्च प्रत्यं प्रजमञ्चमानुजा ेश्व <laughs> पञ्च तव प्रथं वक्तवत् परं प्रजाल प्रजा प्रजाना प्रजाले धनोक्षवक्ष प्रजापक्षोच्चेवाधार्यो मे देवान् प्रवक्षनि रक्षोच्चेवाकारो मेनाव <disturbance> े नियस्तैवं पञ्चमेव त्वेन सर्वा देवनायणाकारस्यत्मन्येव जनप्रतिभागच्छणो भाजा देवाच्य प्राणं च भोजना यज्ञ ष्टात् पशुमक्षमदुपयष्टात् पशुवार्ज्यञ्जयदुपयष्टात्ौषमन कृष्णे जयचण्डागत्य सप्तवर्गेण सप्तधान्या भसप्ताहण्या सप्तचण्डागच्छावध्यानेकादशप्रजाय भोत्तरे जगवामे का वेवला I am, I wish you all a chance. याद्भुतश्चन्दरित्यज्ञा वृद्धियज्ञो सौलक्षसामत हत्यये जम्भवादिना वदन् चन्दरभ्योभ्या देवायजनीयदेयत्पसुकञ्जनम् मारपे दत्तमाय भिलमानस्यातभ्याय मा यालनीयदेयत्पसुर्विगन्नान् मारफेदुभ्यायमानो हि एतवश्रमये ध्याम् मारपेतं प्रारब्धमयवानम् आरब्धमु भक्ते हव्या देवेत्या हे हृदयं यज्ञवलेन्द्रियसायताश्चर्यम् आत्मशुद्धयैव निश्चयम् प्रपशोनाम् वेदपश्चाल् यथा नवदाने हिकस्य वेदप्रयादानाश्चयवनवक्ष न हेत्याभ्यादौ याध्यादौ यापलत्वे धरस्य भूयामनुषः प्रयामायवे शुद्धा नियुर्वारब्धश्च प्राणान्तायनाम् प्राणस्तायनानि प्राणेशले गोपविषमहोक्त षगे लघुशमयश्चे चायस्त्रै न्युप्तौ युगुहे अच्छा रे रे आश्चर्यमध्य नो हिमनुष्ठा आच्यं यजात्येन वाच्यत्र नो हेण हरोहिमनुश्च आच्यं यज्ञा वृत्तेन सदां भावमता बहिरत्वापाच्लागुह्यजलमदय नोभमं चमानयामि वैष्ट्यञ्च भयं जत्या हदौ वा चैवैश्चेत्रेन दैाभाव स्याजन्मा पुतयतास्यागम्ययाधि सत्यैगे परान् वा पृथगेनाय सुले रयित्वायसाञ्जन लोकाक्षम देयः पुनृत्य माधवदेव भाष्टवने पुनरन्मानव जयस्मिन् देव लोके त्वग् विरक्षसामहत्यामो नव अतिमन्ये समायोगे तोकानामित्याभक्ता अवमद्यं च ब्रह्म एतत्पशूनां यत्सवान् समर्थयत्रेमपशोन् प्रतिष्ठामये विश्वाहापशूनां यत्र राज्यमात्मनावपादारोभि यच्छात्त्वम् प्राणापानौ तथा चित्ताहोत्त्वञ्च प्राणा ैव लवचमेव छिद्रमपि तथा पृच्छाभिदैवादिवसेन यत्कृतराज्यम् वश्वासस्य हृदय महात्माभिगमेन यत्कृतराज्ये हृदयभिधाय and the sun gave a blow ैवन्त ये हवितोनुग्रोहेत्याहमनगेवास्यावलं च एकादशायवद्य प्राणात्यैकादशो यावानैलस्यावध्यति हृदयस्याग्रेव जिक्वायानसलक्षभायत्रे हृदयेनाधिगच्छमित जिक्वयामेव जिक्वयामभि एवमवदायभामुक्तम मध्यदे कथा पूर्वमेवाश्च भवनिमध्यतो गुरश्चावज्जनिमध्यतो हि प्राणोत्तमश्चावज्जत्युत्तमो हि प्राणो यदेतल्यकीतलमुदायमानो वेदा यज्ञैकैवारणो यः पुत्री यद्वान् ्रेणानम्भ्य श्रोणं जगना यत्यङ्गामागम् समगत्य गभ्राजु्यानि भवत्यै भवत्याः या भवत्यक्षणया वच्चिकत्वादक्षणया वसवाञ्जा प्रतिष्ठच्च लोकादि प्रथमलोकमेव वसितधा यत्र एतवजोनाय यद्योरसमेव वसितृशादि होमम् प्रयोजि मध्यम् मामेतत्त्वसोनान्योणथ एतवसोनायत्वेन होमम् प्रयोजि मध्यत एवपजोनाय गुणम् धना निध्यम् इमा एतत्त्वम् जमयन्त्य ेवन्द्रः बाण ऐन्द्रमो अङ्गे अङ्गेच्छाह देवो देव तत् तद्भो क्त्राधिकेवलयालक्ष्मां दत्तलक्ष्माणेतं च देवक्त्रायञ्च मेखादोक्त्रा मातां लोकं गमयत्य वा होमञ्च the airboard to look at the ones that come on follow my head over to the line त्यास्फलवे रेवदया भो यत्र राज्यश्च भवत्या हवनस्तदयनप्दया वैश्चानाबानावेवन्यस्यां चोरधुमेव प्रसुरधाने रापक्वय पशुभोवायिना भजो नैवोपक्वयतेयते यं कामयता पशुभ्यादित्यमेदं सप्माहानभ्यां शैतो लोपादे वसवालोक नैवेनं पदुभ्यानुद्भजत्र वसदेव भवतादय वसवालोकेन नैवास्थ वसो नवसुमानै यज्ञादुम्मध्यं पश्चात्त याचा विद्यन्त्रज्ञा याचार प्राणात्मैकादो यावानेन मधुस्तमलेन प्राणा पादौ करोपोना यत्मसदाच्य प्राणाभपुरभावे प्रजा असृततानुभयध्यदेवासृभैलप्रदाये प्रजा प्रजायं जय छलिमतोलिमतो हि प्रजा प्रजागन्त्रे संभ्यन्दवज्य प्राणानामसंभ्येदाघपर्यावक्षय लैश्वर्यावच्चय सुराभत्र प्रजाहुवत्या समुद्रङ्गच्चत्वारेत्याहेश एव भा चन्द्रक्षं गच्छत्वात्मये प्रदा प्रलयचन्द्रक्षव्य प्रदायं जय विचारं गच्छत्वा है क्याः प्रदप्रभूष एव आत्महे प्रदाप्रलय च रात्र गच्छत्वा है क्याहोरात्राभ्यमैवात्महे प्रदा प्रलयकोरात्र प्रदा प्रदायं जय है प्रजाम गच्छता हैना प्रजा है प्रजागं जगच्छ है क्या प्रजा प्रजावा जगे राम भैरव धाजनभो दिव्यङ्गच्चत्वारै क्याः प्रजाभ्येव प्रजाताभ्यो चेन्नवा जलं गच्छाः प्रजा नेव प्रजाता अस्याम् प्रतिष्ठापय प्राणाज्यो वज्रिगुरस्य मनोमेधार्थिगच्छे क्याः प्राणायते आलभ्यस्य हृदय गुरुक्षनिपाहृदय सोलमभिवरे ोहनयनमुत्पादयेनो हितात्मय चलप्लवस्तु आत्मय स्वप्रशासन्भावयत्सभयताम् जयम् न श्यात् सञ्चाय सुदेवेन मत्मयते प्तभ्रुवन्तस्याः यज्ञम् नित्युञ्जा ेवले को वसेवने ग्रन्थादिवसो देवसदेव ेवं यच्छान् जन्मागृगा अस्मा पदवश्च प्रदेवम् यच्छाय प्रदरुद्धेना श्रीपदवान् ग्रन्थायता धान्येभ्यञ्जले पदभ्यमुच्यता महान्तेन महान्तेनाम् ग्रन्था jaya kiya sadewa avastada bebandhana vinam samavaham khera dina junda mahavaham khera dina jaya jitamati vannya samasta manana rinneha sura heda visthavala yatsa anuyneha sura asetengala yantese vaha vachavatra parirekha patam raho viradene स्माश्चयीपदस्य हरिष्कृतानामेव ग्रन्थादि हैष्पादोर्वेत्यामेव ग्रन्थाख्यन्था तृप्ता वेतृवक्षसंपद्यं च रक्षवशाखत्वये भजभ्यत्वरे भरो लोषाय कायगवत्यं दोषयपदमान् चाचिरायवृष्णं लोकेन पदमान् चभयो ै यज्ञश्चापराजराज्ञापराजदन्तै राजदक्षलो यज्ञस्तविदर्शनक्षलोक्षमधन्मीनां ज्ञानाय क्रियमाणमेव ्रह्मवादिना वदन्ति सत्ताक्षाद्य प्रमुपावहन् सर्वाद्य जैन गौरिमै चय वे जैन गलौ साधोर्य जैन गौ जय देव देवदास्ताक्षय वै नम सर्व हरिपुराकप्रिवात्रा वाकुपाकरोग्रेयाहति यज्ञालायज्ञमैलाभिषन्धागश्चन्द्राहफलभागे सन्दागन्जो ये मामरं शैत्रियायस्कामश्चयस्त्व जगत्या पशुरामश्चाभाग्रामश्च मया यामश्चेत्याहमित्रावर्णौ वाहताभ्या नैवेदेव त्याभुदेवेना ग्रन्थाना नैवाधिकृत्याहेदक्षत्याम्यैत्याहस्मा ल्यमानाः श्रीयमानाः पनक्षेयं जै यज्ञात्वार्णच वसञ्च भगस्तश्च वसुदेवने यज्ञ च यत्न त्याहो तेवनम् नमृते मास्त्वनम् समक्षवे यावच्छ त्याग्रे वा जानतवन शतवनमभिनमेवन्द्रायक्षेन्द्रायच्चिन्द्राय विगत् पेधामि त्वन्द्रम्पद्यं चिराजान्य स्वार्थवस्त्रेच्या हैषमापामपेश्वत्वागत्य स्वामदिविद्या विरेच्या हैलेन लोकया प्राजत्रागपायन्त्रयुत pada astha bhujang pada raisandhitana leva shira padi bhava bhava bhishesha padav go prana काणो वा वेदयतु बाकुशलयतु बालस्मग्रात्रायक्षम् च दत्तवनैवायज्ञा वृषयच्छोकस्माष्टाक्षरागायत्रेकायक्षम् च दत्तवनम् च दत्तवनेवकादधाक्षरा ैश्च माभ्यञ्जनगुरुफलसम् माध्यञ्जनमेव समनञ्जया समनञ्जलेन समनमेव जयना यत्रैावक्रादत्तयत्राभिरक्ष्यं ब्रह्ममानिनावं यं जय किं पविश्लवभागुभावित्रैस्पदैन वक्तवान् नित्यां पवय विष्णुशुभ्यानित्याह विष्णो चैनापुंशो यौ सोमश्च गभत्यबोधयित्याह गपत्यः चैनं पवयो देवानाम् पवित्रमधित्याह देवो चेदम् देवानाम् पवित्रेषानाम् भागवधि त्याहयरागस्य प्राणेत्या हेवानैश्वेरैन्द्रेण प्राणान्त स्वाहा तोमली शुभोदयवास्त्रेण शक्तावलीष्ट्रेण प्रयो दैवावयी जीमात्रयन्ताय ृ पद्य नियच्छामये कामर्विध्याः जाताहुलैवेगरिदोजय प्राणमेवात्यानुगच्छहम् जिगच्छामि ेवेनम् परे यत्रयश्वना वदन्ति त्रयःपदोनायम् भक्त्रादानागिले कृपा हस्ते न्यक्पदोनायम् भक्त्रादाना प्रहसि भक्षणः देवानी देवानीयज्ञै कुर्मस्थापयन्तेवानध्यायन्तर्यामेनान्तरं कर्यामस्याम्यदे कटाहे एव लोकेर्ममदां जातम जानम सथकते हवाम यन्केन रोमा विदम भवनद्वयक प्रकृतये सुमनमरणं अभयति दुरललेयमय परित्यक्त प्रित्यक्त देवदेव परित्यक्त वरेता मुखयानम पाकृत सोगादेने नमहे परित्यक्त आचार्य देवदेव त्यान्तरे कृपयामभिःत्याः बालस्य सत्यभाव पवित्रो विक्रयाम् आरोहनुलक्ष्य कमायुगस्यावित्रे शाना पाणवानेषु भागस्वन्दर्यामो ज्ञानमागम् शतमस्वायम् कामये कमायुगस्यादित्य क्रौलस्य धावये tena ketanaye priya bagan daraye samaya jale rakkha sattortena dale nega sattana aroha santana udhavayehi bhana svaya ragade indra vayoge dainindha yala jaha jaha ichchande vasave varupena pale samaya lagan sar chande vadain saho yak samaya bhopadastamante bhagivakra yanna saraya saho kare samaya utte vachana neva khata chanda bhagira bhahanna neva vachana sunti maya yachana sar chande naddho bhadra aspayat sargya koleda विषयञ्च वायु तत्सर्वग्रहृन्दान् समयावृन्धे द्वम्पक्त्या भवतो सम्भोदानि वन्मयानि कण्ठ जप्या द्वावते लेवायन्द्र मन्त्रं विमानं लोधा जप्या भवति भोते समधने मस्य जयवेष वागवे लभृच्छाय काय दस्माहेन्द्रवायम सहिच्छे देवाय नमः जलो कंठ जप्यानात् अपादिं यागदा भावज्जयेतस्मात् सदेविन्याय वज्जालिक्ष्येन्द्रवागवे लोहिरवदावनेन नित्यम् जैवाभ्रन्त्रमेव ेन जगप्त्रोधमजरे क्रोधमिदय जगतप्पाः पशवो भक्मं जगन्मयेत्रगौ समध्यगुधमानम् पुरा फलुरागैवं मित्र देवभगे कवर्णौ देवायागं च भात्मा भगो राजानयो हार विद्वारङ्गैष मित्राय च भागत्या स्वाहा महाक्षेत्रे नपत्रा च ललाजानववंशपुता अग्निविष्टे विष्टनुसोत्तनसोत्तनवाहितं ज्ञानक्षमाशेदव्या संदेरे रात्रित्रवरणाब्धवञ्हिरं नोमिमाहेतमितानोक्तोऽरमृणाभागेय जयवात्पूर्वद्दोऽक्क्याभागे नपत्रायेन्दवाय ओजस्मायत्रवरकान्ते ्रोधाम् परं वृणामहे एव यज्ञस्तसि ेक्तौ रः ब्रुवन्दभूतौ वायिवश्चेदानेन भवेष्टाभ्येतमा गृह्णम् चेतस्मादेवं विरुधा जगत्पमानौ वदस्य परित्रम् च यम ब्राह्मणे प्रियम् तत्मादपात्रमुपनिधाय ब्राह्मणं कर्याज्ञापदेव समक्षगाक्ष्रह्मवाजिनावम् जगत्पात्राद्येवत्याहूयम् जय जयदे नित्यम् चेदस्मात्रा भूजम् चेदस्माम् प्राणा प्राणात्याय नियम् कूर्वा प्राणानन्तयदे प्राणान् भित्त्वाय देवाग् मयेत्रावर्णस्वात्मदिन पुरस्तारेन्द्रवायवं भक्षयवा पुरस्ता पुरस्तान् मेत्रा to fight, but I took her down the city, I left the yard of ours in the fire, out of the store, there's been all the time I'm getting. य रक्षलोमेज्ञाश्चवजलम् देदरिक्षाधिमात्राणि धारयैक्रियमाणेबैकस्य जय रक्षदामनन्दवचारानि दक्षिणस्या लक्षोत्तरस्याम् अच्छागो सालैरि वाच्यैव वाचन्द्राजनाक् परिस्य सन्दत्यै brahmapadarevalam koriharanai sandha vachavathanam brahmam brahmam so deva asandram brahmam sansodhaste yajyo yanjana rakshamanabhirudde deva sandhalankha upalandayantah vathudhamaramana vai deva vastra rikhe rajana शुक्रामन्त्रिणावगन् संसदौ सेवा अभवन्तरासुरायश्चैवं विगत शुक्रामन्त्रिणौ नित्येनैव भवत्यात्मनापराज्यजाल्याभवगतौ सेवा अवलध्यात्मल इन्द्राया सन्ध्यावक्तौ सहारे विप्रो न्द्रश्च कार्योपानि हरिक्रदशमानि च शुक्रश्चन्द्रमा पञ्च निगृक्षा चौष्णा दत्तपात्रायं कौ नवश्च जगदत्त सत्यं चोयन्तौ जयकृदेवायश्व sarve devana priyapaya ekam jyo dattapa vidarasi anchakshu vidappa naadira yakshu vidhure sarva prayaka uraksaha bahute jalaya astra jira hue devatavatta uravanam tarutta vikrana dandana snehe ye macha saraha asuta rakta devana daptashinya hoya hulanna tattejyo शुक्रामन्त्रिणो पश्चात् चैव प्रजा प्रदेय प्रदेशे जायन्त्य शुक्रामन्त्रिणौ बाल प्रजा प्रजायञ्चाद्या सुलीरा प्रजा प्रजनयन्तरेः शुक्रश्च प्रजो प्रजा प्रजा प्रजनयन्तरेः मन्त्रे मन्त्रितो विषयत्या हैतावे शुवीराया अत्रे हैतास्तु प्रजाया ै राच्य प्रजायागरे नाद्याः प्रजापदे वक्षस्व यक्षत्परामदक्षद्भिगङ्कवं प्रापि दक्षद्भिगङ्कलेना रमदज्यवं प्रापि दक्षद्वै रमदभ्यवक्त्रगे कङ्करमन्त्रिपाहि प्रजापदय नैव चक्षम्भरभवाय नामदं जिगस्वा सत्याम्भन्त्रयोश्चाहतपात्रगोहे प्रोह्या ृत्यं तानगन्धनगरी ब्रह्मर्यालयस्यैवं गृहृत्यं जैश्वर्ये जाय ेव देवतया वाग्े सोमात्मध्यक्षा या तिष्ठवान् च वाक्यवक्रान्ताया प्राणे चैवत्रय प्रजापदन्दिहे प्राभिङ्कर प्रजाप जयपद प्रजाभि त्यात्मायथानय जलेत एव दज्जारुर्वग्रन्थाधिप्रलयत्यैव दजं समादिनामनस्यायत्र ी सर्वानुभवनाय वहरे भवनाय वह स्वाक्रोरभित्राय वज्रमुदयच्छ भज्रादित्यदायवे प्रदामे वृक्षं नाय चकस्मै हृदि यमुदय चत्वा प्रहारिवा इदं मयि वेर्यं दच्छामे धक्षमेव प्राय चक्तस्मै हृदयमुदय चक्रम्य करन्द्रयष्टेन्नामे प्रहारिवा इदं मयि वेर्यं दै प्रदानात् श्यामे धरस्मा उत्तमेवय छत्रञ्जन्नायं भ्रोधनहरेज्ञमभिरक्षमाय ृच्छालक्षण इन्द्रेणैव तद्धेर्येन्द्राय स्वायत्वं प्रायच्छावि पुनर्हेत्यागृह्णाय कर्वाच्चैकयुच्छ दुःखगौ भजनम् सोम अन्वाय जगत्मादात्पादक्षलम् जगत्पादे जयन्तं भगवने जलत्पादेकजलपादेकवक्षे ध्यायां जयेन धात्पालं जैके रम् यमिच्चन्द्रना विज्ञाने क्रेनामयमानयमानमये जल्दबाजी यद्धव उत्तम ग्रहाणाय प्राणायामुत्तमं धानन्द्र्याहवैनप्राणिपादुभयनप्राणादस्तानामदयस्तान्द्रहानि प्रजाप्रयच्छन् दया उत्तरन्तान् देवा ध्रुवेणाद्वयो होश्च्यवोत्तर्याःला यच्छात्पन्नेवत्यश्चायन्दराज वरक्षा दृक्षस्यामणि इत्याह वरस्थायुध भुङ्क्य मणि इत्याहुर्मध्यमेण कायुध भुङ्कमुत्थराध्यमये इत्याहुत्सवे कायुध भुङ्केश्वरेमाणा यामवैजमेश्वरे प्रजा प्रजायन्द्रे यज्ञै न मे देवास्तु वर्गं लाधमाजन्तपञ्चे संवत्पेण लोपयित्वार्गन् लाकमायन्तर्ग्रहे देवान् चतुर्ग्रहायत्यं च लक्षत्रज्ञादश नित्यं नज्ञात्र मम समवद पात्रं भवति कोहिरत्नेगदशोनाम भवत्ना धृत्कृपा हरिपादेव प्रेणाय कृतभेरेव पशोन्त्रेण यज्ञः पुनरगुणा प्रेणाय कृतराप्रेयश्च जनकर्पा हस्तभेद चतुष्पादपसमऋो नवजीवं यज्ञः पुनदरुणा हा जीवादस्य पुनः पशो ragacha <laughs> na tharan ethan yanya na birthday miga dandha प्रवर्ध्यक्तदशमनप्रवचे रक्तस्य प्रसिद्धमेव प्रपचनेन प्रसिद्धम् दक्षिणेन विषदक्षनेन विहायत्या यत्ते चास्तित्रयोदशोमादृत्या उत्तमे पदत्रे नाशि ODDS सक चाँ आण। ODDS स्राव्यप्षन सेुखत VAR MA, MA no وا dal You Sua Oba Gertlaid falls Seid etc. Diabilities LS, Mahumika R Natlaj शुक्रवा त्रैणगन्धाज्यौरे प्रजा असाराधिश्च तेज जात धागे